हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे विंशति अधिकशत समस्सर्ग श्रीरामस्य अनुनये नेन्द्रेण मृतवानराणाम् उज्जीवनम् देवानाम प्रस्थानं वानरसेनाया विश्रामश्च प्रति प्रयाते काकुत्से महेन्द्र पाकशासनः अब्रवीत् परमप्रीतो राघवम् प्राञ्जलिंसितम् अमोघम् दर्शनं राम तवास्माकं नरशव ऋषभ प्रीतियुक्ता स्मृतेन त्वम् ब्रूहीयन्मनसेप्सितम् एवम् महेन्द्रेण प्रसन्नेन महात्मना सुप्रसन्न मनरुष्टो वचनं प्राह राघवः यदि प्रीति समुत्पन्ना मयिते वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर मम हेतोः पराक्रान्ता ये गतायमसाधनं ते सर्वे जीवितं प्राप्य समुत्तिष्ठन् मत्कृते विप्रयुक्तायै पुत्रे दारयश्च वानरः तन्त्रैत मनसः सर्वान् द्रष्टुमिच्छामि मानर विक्रान्ता चापिशूरा न मृत्युम् गणयन्ति च कृतयत्ना विपन्नाश्च जीवयेतान् पुरन्दर मत्प्रियेष्वभिरक्ताश्च न मृत्युम् गणयन्ति ये तत्प्रसादा समेयुस्ते वरम्भे तं वृणे नीरोजो निर्वृणाश्चैव सम्पन्न बलपौरुषान् गुलाङ्गूलान्तश्च द्रष्टुम् इच्छामि वानरे अकाले चापि पुष्पाणि फूलानि च फलानि च नद्यश्च विमला तत्र तिष्ठेयुः यत्र वानरः श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः महेन्द्र प्रत्युवाचेदम् वचनं प्रीतिसंयुतं बहानयम् वरस्तात यस्य योक्तो रघुत्तम निर्मया नोक्तपूर्वं च तस्मादेतद्भविष्यति समुत्तिष्ठन्तु ते सर्वे हतायैर्युधि राक्षसे वृक्षा च स गोपुच्छे निकृतान्न निरोजो संपन्न चैव सम्पन्ना बलपौरुषाः समुत्थास्यन्ति हरये सुप्ता निद्राक्षय यथा सुरभिर्बान्धवश्चैव ज्ञातिभिः स्वजनेन च सर्वैव समेषन्ति संयुक्ता परया मुदा अकाले पुष्पशवल फलवन्त च पादपः भविष्यन्ति महे श्वास नद्यश्च शलिलायुतः च व्रणे प्रथमं गात्रे इदानीं निर्व्रणे समये तदसमुत्थिता सर्वे सुप्तेव एव बभूर्वानरा सर्वे किं चेतदिति विस्मितः काकुत्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमः अब्रवन् परमप्रीता स्तु रामं स लक्ष्मणम् गच्छयोध्यामितो राजन् विसर्जय च वानरान् मैथिलीं स्वान्दायश्चयनम् अनुरक्तां यशस्विनीम् भ्रातरं भरतं पश्य स्वच्छोकाद्रतचारिणम् शत्रुघ्नं च महात्मानं मातुः सर्वा परं तप अभिषेचात्मानं पौरान् गत्वा प्रहसय एवम् उक्त्वा स्राक्षो रामं सौमित्रिणा सह विमानैः सूर्यसङ्काशै ययो हृष्टः सुरैः सह अभिवाद्ये च काकुत्स सर्वान् तान्त्रि दशोत्तमान् लक्ष्मणेन स भ्रात्रा वासंज्ञापयत्त लक्ष्मणान् पालितः महश्चमुजना यशस्विनी क्रिया ज्वलन्ति वीरराज सर्वतो निशा प्रणीते वैशीत रश्मिना इत्याख्ये श्रीमन्त रामायणे युद्धकाण्डे विंशति अधिकशतमस्वर्गः श्रीसीतारामचन्द्रार्पणमस्तु